श्रीदुर्गायै नमः असदेव्याः कवचम् ॐ अस्य चण्डिकुवचस्य ब्रह्मा ऋषिः अनुष्टुप्छन्दः चामुण्डा देवता अगन्यासोक्तमातरो बीजं दिग्बन्धदेवतास्तत्त्वं श्रीजगदम्बाप्रत्यर्थी सप्तसती पाठङ्गत्वेन पि विनियोगः ॐ नमश्चण्डिकायै मार्कण्डीय उवाच ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणां यत्प्र यन्न कश्चिदाख्यातं तन्मे ब्रूहि पितामह ब्रह्मोवाच विप्र सर्वभूतोपकारकम् देयासुकवचं पुण्यं तत्क्षणुस्वमहाबुलिः प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी तृतीयं चन्द्रघण्टेति कुशमाण्डेति चतुर्थकं पञ्चमं स्कन्दमातिशी षष्ठं कात्यायिनीति च सप्तमं कालरात्रिति महागौरीति च चा अष्टमम् नवमं सिद्धिदात्री च नवदुर्गा प्रकीर्तिताः उक्तान्ये तानि नामानि ब्रह्मणैव महात्मना अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे चैव भयार्ता शरणं गता जायते किञ्चित् अशुभं रणसङ्कटे नापदं तस्य पश्यामि शोकदुःखभयं नहि यस्तु भक्त्या स्मिता तेषां विद्धि प्रजायते ये त्वां स्मरन्ति देवेसि रक्षसे तान्न संशयः एतसंस्थातु चामुण्डा वाराहि महिषासनाम् ऐन्द्रियगजसमारूढा वैष्णवीगरुणासनाम् माहेश्वरी विषारूढा कौमारीशिखवाहना लक्ष्मीपद्मासना देवी पद्महस्ता हरिप्रिया वेतरूपधरा देवी ईश्वरी वृषवाहना ब्राह्मीहंसमारूढा सर्वाभरणभूषिता इत्येता मातरः सर्वा सर्वयोगसमन्विता नानाभरणशोभा्या नानारत्नोपशोभिता दृश्यते रथमारूढा देव्या क्रोधसमाकुलां शङ्खं चक्रं गदां शक्तिं हलं च मुशुलायुधं कीटकं तोमरं चैव परशुं पाशमेव च पुन्तायुधं त्रिशूलं च सार्गमायुधमुत्तमम् दैत्यानां देहनाशाय भक्तानाम् अभयाय च धारयन्त्यायुधानित्थं देवानां च हिताय वै नमस्ते स्तु महारौद्रे महाघोरपराक्रमे महाबले महोत्साहे महाभयविनाशिनि त्राहिमां देवि दुष्प्रेक्षे रत्रोणां भयवर्धिणि राजां रक्षतु मामेन्द्रिय आग्नेयामग्निदेवता दक्षिणैव अवतु वाराही नैऋत्यां खड्गधारिणी रदित्यां वारुणी रक्षेर् वायव्यां मृगवासिनी उदित्यां पातु कौमारी ऐषान्यां शूलधारिणी ऊर्ध्वं ब्रह्माणि मे रक्षेर अधस्थाद्वै सवि तथा एवं दशदिशो रक्षेत् चामुण्डा शववाहनां जयामी चा वृतः पातु विजया पातु पृष्ठतः लितावामपाश्वेतु दक्षिणे चापराजितां सुखामुद्योतिनी रक्षेत् शिखामुद्योतिनी रक्षेत् उमा मृष्णे व्यवस्थिता मालाधरी लटे च भ्रुवौ रक्षेसिनी चुवो मध्ये जमघंटा चिके शिणी चक्षुशोमध्ये कालिका रक्षे, कर्णमूले शक नयां सुगंधा च उत्तर चर्चि अधरे चामृतकलां जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिकां कण्टिकां चन्द्रघण्टा च महाभाजा च तालुके कामाक्षी च भुकं रक्षे वाचं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्टवंशे सनुर्धरे नीलग्रीवा बहि कण्ठे नलिकां नलकूबरी स्कन्धयो खड्गिणि रक्षे बाहुभिद्रधारिणे हस्तयोर्दण्डिनी रक्षे अम्बिकाचाङ्गुलिषु च नकाञ्चुलेश्वरि रक्षे मुक्षो रक्षेत् कुलेश्वरी तिनो महादेवी रक्षे स्थनौ रक्षेन्महादेवी मनः शोकविनाशिनिदरे देवी उदरे शूलधारिणि नाभौ च कामि रक्षे गुह्यं गुह्येश्वरी तथा ऊतना कामिकामेढ्यं गुरे महिषवाहिनी कट्यां भगवती रक्षे जानुनि विन्ध्यवासिनि जङ्घे महाबलारक्षे सर्वकामप्रदायिनी गुल्फयोर्नारसिंही च पादपृष्ठे तु तेजसी पादाङ्गुली गुलिसुशीरक्षे कादाथस्थनवासिनी नखान् द्रष्टाकराली च केशास्यैवोर्ध्वकेशिनी रोमकूपी सुकोबेरी द्वचं वागीश्वरी तथा दत्तमज्जावसामांसानि अश्विमेतांसि पार्वती अन्त्राणि कालरात्रिश्च वित्तं च मुकुटेश्वरी पद्मावती पद्मकोशे कफे चूडामणि सथा ज्वालामुखी नखज्वालाम् अवेद्या सर्वसन्धिषु शुक्रं ब्रह्माणि विरक्षे छाया छत्रीश्वरी तथा अहंकार मनोबुद्धि रक्ष धर्मधारिणी तथा तथायानम उदानं सनकम भद्रहसा मे रक्षे राण कल्याणशोभना रसेपे चन्धे चब्दे स्पर्शे तत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा आयु रक्षति वाराही धर्मं रक्षतु वैष्णवी यशकृतिं च लक्ष्मीं च धनं विद्यां चकृणीं गोत्रमिन्द्राणि मे रक्षेन् वसुन् मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मी भार्यां रक्षतु भैरवी सन्थानं सुपथा लक्षे मार्गं क्षेम करीस्तथा राजद्वारे महालक्ष्मीर्विजया सर्वतस्थिता रक्षाहीनं त्रियस्थानं वर्जितं कवचेन तु तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिने पदमेकं न गच्छेत्तु यदीक्षेच्छोभवात्मनः कवचेनामृतो नित्यं यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यं यं चिन्तयति कामं तं तं प्राप्नोति निश्चितं परमैश्वर्यमतुलं प्राप्स्यति भूतले पुमान् निर्भयो जायते मर्त्य सङ्ग्रामेष्वपराजितः त्रैलोके तु भवेत् पूज्य कवचेनावृत पुमान् इदं तु देव्या कवचं देवानामपि दुर्लभं यः पठेत् प्रेतो नित्यं त्रिसन्ध्यं श्रद्धयान्वित दैवी कला भवेत्तस्य त्रैलोके स्वपराजितः जीवेद्वर्षशतं शाग्रम् अपमृत्यो विवर्जित नश्यन्ति व्याधय सर्वे लूता विस्फोटकादयः सावरं जङ्गमं चैव कृत्रिमं चापि यद्विषम् अविचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूचराखे भूचराखेचराश्चैव जलजाचोपेशि सहजाकुजाला कि अंतरक्षोरा लाकि महाबला ग्रहभूता यक्ष गारसा ब्रह्म राक्षसेता उषमा भैरवादया नश्यन्ति दर्शनात् तस्य कवचे श्रि संस्थिते नारोन्नतिर्भवि द्राव्य तेजोविद्धिकरं परं यशसा वर्तते सोऽपि कीर्तिमन्दितभूतले जपि सप्तसतीं चण्डीं कृत्वा तु कवचं पुरा यावद्भूमण्डलं धस्ते शशैलवनकानम् तावत्तिष्ठति मेदिन्यां सन्तति पुत्रपौत्रिकी देहान्ते परमं स्थानं यत्सुरैरपि दुर्लभं प्राप्नोति पुरुषो नित्यं महामाया प्रसादत लभते परमं रूपं शिवेन सह मोदते ॐ श्रीदुर्गायै नमः